पान्तमा भो अन्धज इन्द्रमभिप्रकारय विश्वासाहम् ततक्रतुम् विष्टम् दर्वणीनाम् पुरुहूतम् भोरक्षुतम् गावाधान्या हंस न श्रुतम् इन्द्रयितिब्रवीतन इन्द्रजन्द्रो महानाम् दादावाजानाम् ऋतो महाङ्गाभिग् अपादशिज्ञदक्षस्य प्रभोपिना इन्द्रोरिन्द्रोजवासिनः तम् अभिप्राचेन्द्रम् सोमस्य गीतये ते ध्वस्य वर्धनम् अस्य पी त्वामदानाम् देवो देवस्य उजधा विश्वाभिभुवनाभुवरे चमो वत्स त्वादाहम् विश्वासु गीत्वा यम् आच्या वयस्य उदरे यद्भं सन्द्रामनर्बालम् सोमपामनवच्युतम् न रामभार्यक्रतुम् शिक्षा न इन्द्रराजा गुरुविद्वाङ्गजीषम अपारेधने अगश्चिदिन्द्रहोपाया हि सतवाजया इषासहस्रमाजया अजामजीवजोतियोर्वद्धिशक्रगोदरे देवसुपज्रिवः अजमत्वाशदक्रतो कापोदयवशेष्वाक्षेडूरणलामसिमध्यत्वनानुकामाशदक्रतो अघन्नभज्र्यससाः हेषुत्रङ्गामारादयः न त्वामिन्द्रातिरिच्यते ृहन्सम् घोरजाद्रभित्वा जिया विड्ढि पुरम् ज्वा यस्ते ऋनम् इन्द्रिद मोमदाः तेन ऋनं चेत्मा यस्ते अद्रिभस्त्वा दत्तः सत्यसोमपाः विश्वासु रस्मघृषिषु इन्द्रायमद्वाने सुतम् वरिष्ठो बन्धु नो गिराः अहक्रमर्जन्तु कारवाः यस्मिन् विश्वाहधिश्रियो सप्त संसदाः इन्द्रम् दृकद्रुकेषु चेदानम् देवासो यज्ञमत्मतान्तु नो गिराः आ त्वाभिन्दावः समुद्रमेभसिन्दावः न त्वाविन्द्रादी चे दिव्यमहिला वेशन् रक्षम् सोमस्य जागृहे इन्द्रजठु ते अरम् दैन्द्रभुक्षये सोमो भवतु वरद्रहन् हरम् धामभ्यैन्द्रभः अरमस्वायगायति सुरक्षो अरङ्गवे अरमिन्द्रस्य धाम्ने अरम् युष्माशुषु नः सोमेष्मिन्द्रभूषसि अरम् ते शङ्क्रदामने अरागात् ो गिराः परङ्गमाले भयम् देवाख्यसि वीरयुरेव शूरबुधस्थिरः देवा देलाध्यम् मनाः एव राजिस्तु विमघविश्वेभिर्धायि धातृभिः अथान्द्रमे सदा ्रह्मे वादन्त्रयुर्भुवो बाजानाम् पते मत्स्वा सुदशो मातः इन्द्राभ्रा आदिशून्मत्वायुरे मदेदिन्द्रावयम् प्रतिब्रुवीमहि स्पृशाः त्वमस्माकम् त्वस्मसि स्वामिद्धित्वायवो नो नोपदश्चराय सखा जन्द्रकालवाः ऊर्ध्वे धंग्र रविसृषामघम् ऋषभम् नर्यापसम् हस्ता रमे सूर्य न भयो न पतिम् पुरो विभेदबाह्जसः अहिं रवित्रहाबीरे स न इन्द्रः शिवः सखा स्वा भद्गो मद्य वा मत् गुरुधा दोहते यदद्य गच्छा अभिसूज सर्वम् त्वदिन्द्रदेवसे यद्वा प्रवृद्धतत्त्वदेन मा राजिति मन्यसे पुरोदत्सत्यमित्तम र्वावती सुन्धिरे सर्वां स्थासि अविन्द्रम् वाजरामसि महे वृत्राजहन्तापे स वृषा वृषभो भूव इन्द्रः सदामाने धृतवो ज्येष्ठः समदेहितः युम्नी श्वोकी सौम्यः ृदः सबलोनावच्छुदः दुर्गेधिन्नः सुगम् वृधिगृणानयिन्द्रगिर्वनः त्वमञ्च मघवान्वशाः यस्य धेनोचीतादिशम् न विनन्ति स्वराज्यम् न देवो नाद्रिगुर्जनाः अप्राधिस्कृतम् देवी सुष्मम् उरेषु शिप्ररोदसी मेदधारजः कृष्णासुरोहिणेषु च परिष्णेषु सत्त्वजाः त्रिषु विश्वे देवासु अक्रामुः बिलम् मृगस्य राम् ममाह आदूरे नियम् अजाधम्बो रद्रहम् दर्शनीयाम् आदूरे राधासे महे ररोनामन् पुरुष्टुत यत्सो मे सो महाभा नाजितः नो रग्रहाभूर्याः शृणो दोषग्रहादिषम् अया त्वम् न भूत्याभिप्रमन्दसे अया सोदृजाभर कश्च ऋषाः सुजाभोराणते ुणस्त्वम् <Di> रजम्बन्दसानः सहस्रणम् रजन्दावोधिदासुषे पत्नीवन्तः सुतामपुषन्तो यम् जगीले अवाञ्जग्ध्वर्निजम् पुनः इष्टाहोत्रा रक्षेन्द्रम् वृदासो अध्वरे अर्थाभृतमोजसा जिगत्या हरीहिरण् स्यामभिप्रयोहितम्भ्यम् सोमासुदािवेस्तीर्णम् सोद्रभ्यजीन्द्रमाभ आदेचनाद्रिदासुवे सोद्रभ्यजीन्द्रमर्चर धायेन्द्रियमुत्सा विश्वा शलक्रलो सोद्रभ्य इन्द्रमृजय भद्रम् भद्रम् महाभरेषमोर्जं सलकृन्द्र मृळजा आसिनः स नो विश्वान्याभरसुभितानि शलक्रलो यलिन्द्र मृळजा आसिनः स्वामिद्भत्रहन्दमसुतावन्दो हवामहे श्रीन्द्रमिळयासिनः उपानो हरिभिः सुतम् जाहि उपानो हदेभिः सुतम् विराजो वृत्रहं दमो विजयिन्द्रस्वतत्रालु ेषाम् पात्रा सोमा नामसि उपनोहतिभिः सुरम् इन्द्रजिषेददातुम् रयिम् वाजीरदातुवालिनम् ओर्ध्वयति मरुताम् श्रवत्सुर्माता मधूनाम् यस्या देवा उपस्थे वृदा विश्वे धारयन्ते सो जामासा धृशेषम् अत्र विश्वे हर्या सदाभिनन्दि गार्वा मरुदस्त्वयम् हृदः पिबन्त्यस्य मरुदा उद स्वराजो अश्विना दिवम् दिविन्द्रोर्जमान भूतस्य वरुणः ऋषशस्थस्य जावन्वस्य जोषमास्रुतस्य गोमादः गादरुभूते क्रिषन्तसूरजस्थिर आपाजिवस्रुधाः वर्षम् दिभूतदक्षदः कल्पो अद्य महानाम् देवानामोरुणे मनाशस्वर्चसाम् आये विश्वार्थिवाणिभप्रसङ्गोचनादिव मरुतः सोमा बीगजे चान् भूतरक्षसो जिवो वा मरुतो हुवे अस्य सोमस्य बीगजेः ु ये विरोदसीतो भुवे अस्य सोमस्य बीतजे चन्नुमारुदङ्गनम् गिरिष्ठामृषणम्भुवे अस्य सोमस्य बीतये आत्वा गिरो रचीवास्तु श्रुतेषु गिर्वः अभित्वा समानोन्द्रवत्सन्नमातराः आत्त्वा शुक्रास इन्द्रगर्मणः पिबात्मा अस्यान्धेन्द्रविश्वासु देहिसो मम्मदाः जगमिन्द्रेनाभेदम् श्रुताम् पति राजा विश्रामसि श्रुति इन्द्रय स्वाह स पर्यति गोमादो राजस्पूर्द्धिमहायसीमिरम् मन्द्रामदीयन चिकित्मन्मानसन्धिरम् रत्नामृतस्य पिप्युषी अमुष्टवा भयङ्गिर इन्द्रमुग्धानि वाण्यस्य ओम् श्यान्दो वनामने विन्द्रम् स्तम् श्वेम्ना शुद्धे शुद्धेर्वा शुद्ध्वां संवाशीर्वान्मवत्तु इन्द्रशुद्धो नागहि शुद्ध शुद्धाभिरुधिभिः शुद्धो सुध्णा रयन्निहारय शुद्धो मा मध्ये सोम्नः इन्द्राशुद्धो ज्ञानयम् शुद्धो रत्ना वि गादुषे शुद्धो रत्नानि विघ्नसे शुद्धो वाचम् विघाससि अस्मापुराधादीरम् दयाममिन्द्राजनक्रमो ज्ञास्तु वादास्मावो मातरः सप्ततः वस्तु पारा ेवो नमग्रस्तु प्रवृद्धाव्र नभश्चकार इन्द्रस्य वज्र आशो निवेश्व इन्द्रस्य बा भोज ेन्द्रस्य कृो निरेख आसन्मेधम् प्रश्रुत्यापागे मन्ये त्वा यज्ञियम् यज्ञियानाम् मन्ये त्वाच्चव रमचूराणाम् मन्ये त्वा सत्त्वानामिन्द्रकेतुम् मन्ये त्वा वृषभम् कर्षणीयाम् आयद्वज्रम् आपूरिम् रजत्सेवमः प्रगा प्र ब्रह्माणोऽरक्षम् नरेन्द्रम् तमुष्टवामने स्वाहा जातान्यवरान्यस्मात् े देवाज गुरुजे सहाजः मरुद्धीरिन्द्र लक्षे अश्व विश्वा प्रधान जरासि िस्त्वा मरुदो वावृधानाशयो ज्ञास उभत्वेव कृतिरो भागदेशेनाविरा जिह्मवायुधम् मरुधामणीकम् हस्तयुन्द्रप्रतिवज्रम् दधर्व युधा सोऽवाश्चक्र नतापभवरि महामुग्राय धे सुरिम् प्रेराय शिवदमाय पशः गिर्वागदे चेन्द्राय गुर्वीर्दे निष्रस्यङ्गवेदत् ओषट्टलिम् नमसा विवास उपाभूषर्मारोगण्य श्रावङ्गवेदत् ोऽहम् श्रुमदी मिक्षति जानकृष्णो दशभिः सहस्रैः आभक्तमिन्द्रश्चमभस्मै परे न ज्यो ऽहम् धृमत्याः ो न कृष्णमावध शिवाम् समिष्यामिव वृषणो युध्य राजौ अधोऽहम् सुमत्या भुपस्ते धारयन्वम् दृग्ण इशो देवीभ्या आरम् बृहस्पतीनाखिलेन्द्रः भ्यो जायमानो शत्रुभ्यो अभवत् शत्रुरिन्द्र गुहे द्या वा पृथिवी अन्वृन्दो विभवजो वरेभ्यो रन्धा त्वं हर प्रजमानवो जो वज्रेणभज्रन्द्रयो जगन्धा त्वम् दृष्टस्यावाजिरोपधत्रै स्वङ्गायिन्द्रच्चेदविन्दः त्वम् हेषणीनाम् घनौ ऋत्राणाम् त्वम् सिन्धोऽ सभानाम् त्वमो अजयोः सदूरणीताय सुमम् गर्जो अहे यतेयन्नर्यवाम् दिवर्ता सुरत्रः प्रदीन स्वरत्रहेन्द्रश्च विवणीनृत्तम् द्रष्टुत्याहव्यम् भुवेव सत्रा विरामघवानोऽधिभक्तादवाजस्य श्रवस्य दादा सर्वत्रहेन्द्रभुक्षा सद्योजज्ञानो हव्यो बभूव पुरो निजो मोनपेतोऽहम् यायिङ्गर्वाम् असूरेऽब्जः सोदारमिन्मघमन्नस्य वर्धजये सत्ते वृत्तपरिमिटः जलिम् तव स्वयम् िमाबलौ रतस्य व्रतो स्वैश्वरम् सृतब्धे हिमम् ददाक्राशीपदावति वृत्रहम् भिर्जुगलिभिः सुधापि यद्वादने वृद्रहन्तरिक्षागहि सरस्तोमेषु सोमपा सुेषु सभसस्पदे मातयः स्वराधसा सोमृदा भतेन्द्रराजा परीयसा मा वृणग्भवा नस्समात्याः त्वन्न इन्द्रपरावृणग अस्मेन्द्रसदा सुते निषदा भीतरे मधु ेववन्नवो महदस्मेयि ने नत्वा देवास आसदनवत्यासो अद्रिवः विश्वा जाता निशपदभिभूरधि नत्वा देवास आसत अभिभूता सजोस्ता विश्वापृतनाभिम् सजोश्च दक्षुरिन्द्रम् जयश्च रावरिष्ठम् वर आमुलिमुदोग्रमोऽष्टम् धवसम् तरस्विनम् समीम् रेवारो अश्वरन्ेन्द्रम् लोमस्य वीररे सर्पतिम् युगव्रोह्यो च मूतिभिः चक्षसामेषम् विप्राभिस्त्व सुदीतयो वदुहोऽभितरश्विनस्तृक्त्वान्द्रम् यो हविघवानमुग्रम् सत्रा दानमप्रष्कुतम् सवांसि राजे भवत्तद्राजे विश्वासुभृणोतु वज्री त्वम्बुरा इन्द्रजीले राम्यो जादविषकृद्विश्वानि भुवनानि वज्रम् जामारे जे कर्णमिन्द्रूरच्रवातो न भद्रेन्दुरादिवृभुवि कला इन्द्र राजादरुय सलानमनाः ओ हरि ओ य सामाय जलविः त्वमिन्द्राविरोचनः विश्वदेवो महाङ्ग्राज्योतिभागच्छोरो चिभः ख्याय जयमिरेन्द्रो गि प्रियसत्राणि सरोदरसी इन्द्रादी फलग्दिवः त्वं यामिन्द्र दत्ता पुरामसि ृदीन्द्रगर्वन्महत्सृद्महे उदे वयन्द उदभिः वा ब्रह्माहि वा गाथयोसा इन्द्रा इन्द्राभरङ्गोजोऽ सक्रमो विसर्जने आवेयम् वेदनाथम् त्वं हिरः पिता व त्वम् माता सक्रमो बभूवीथ अथान महीमहे ृष्मिन् गुरुब्रुवेदन कलु स नो राश सुवीर्यम् स्वामिलाशो नो वीप्यम्बृणोर्नयः सयम् द्रस्तो माहा मत्स्वासि प्रहरि वस्ती महे त्वे वसूनिजातेभागमीहिम अनन्तरा सुतामुपस्थिति भद्रा इन्द्रस्य राधया य चोदयन् प्रयोभिश्व अनु ते सुयन् दरीयरोक्षो नि श्वाते स्मृतस्वशये रत्रिम् प्रदूर्पसि भूवो अजरम् प्रहेतारम् प्रहितम् आसुन्देतारम् हेतारम् रचितमतोतारमेष्कृतम् संस्कृतम् सदमोधिम् सदक्रतुम् मानमिन्द्रमसे हवामहेव समानम् वसूर्यवम् अनन्दाये विधन्दा पुरस्ता विश्वे देवाभिमायन्ति पश्चायन्दिधरो भागमिन्द्राभिन्वया क्लवो वीराणि तदा विदे मधूनो भद्रवग्रे हितस्ते भाल सुम् दक्षिण स कामेत्राणि गङ्गना बभूरि असो भारन्द्रीन्द्राय सत्यं यदि सत्यमस्ति नेन्द्रो अस्ति ये भूत्वा हृतर्शनष्टम अयमस्मि अल्पश्च मे हरिष्पाभ्यस्मि मह् प्रदितोनादग्नि आयन्वा वेनारोहम् ऋतस्याङ्गे अधीनम् वर्यस्य पृष्ठे पठश्चिन्मे हृदा प्रत्यावोचरचिक्रदन्मन्दसहाय ेषु प्रभा मघवन्दिन्द्रन्परे यत् पूर्वम्भृतम् अश्वपायऋषी बन्धवे पृथे भो अपापनीत् श्रीभृद्रवर्माणिव द्रव्यमिरो अपि वदत् यमम् अद्रिराभरत् समुद्रे अन्तस्त्रायतमुद्रा वज्रो अभिप्रेतः पुनप्रश्रवनबलिम् जगद्वाग्वदम् जविदे तनानिरा श्रीदेवानाम् निरमन्द्रा सदश्रवोजम् मृदुेवयाम् श्रीकृ परमन्द्रगाम देवीम् वा देवासाम् विश्वरूपा प्रसवो वदन्ति नो मन्वेषणो जुहार्वा नस्मानुपुष् विष्णो वितरम् विक्रमस्वजौ देहितो मद्राजविष्णभेत्रम् प्रसवे विसृष्टाः विधयिता न समे देवता क्षत्राक्षाजानादीर्घस्वत्ता बाहुदानदंसार्यतः साकम् सूर्यश्च रश्मिः करोम् मित्रावरुणा जिरो दूरो आद्रापदे जस्ये भ्रामते रघुः अजः संवृत्सेन पुनर्घवीत अस्मान् अद्य समृतेन ऋष्यदम् बाहुभ्याम्नषदम् अवित्र जप्राजम्ने च मृतामसो पुरुच्च अम्बरुने च जनमत स्तोत्रम् राजा रुणम् जैम्बस्वेकम् पुत्रम् एधा मान्य अभिलक्षते आ मे मताम् सुजाताद्युमत्तमानि कर्त्वा उभाया दम्नासरत्या दशोराधा प्रदीभी वीतरे ङ्गवामहुवाभ्याम् वातीं गोत्राम् नार नानादमलग्निना आनो यज्ञम् देवि श्रीसंवारो याहि सुमन्नाभिः अन्तः पवित्रा भुवरिश्रीना आयामि ते वैद्यध्वर्यम् पतिवीरतिष्ठे प्रति शानियुक्तभुवयः स न पि वसुचिन्दो मङ्गवारम् महाजो जबलादित्यमहाधि ो महिदेव महासि वसोजस्रहसा महासि सत्रा देव महासि मन्धादेवानामसुर्यः पुरोहि यो विभ्यो धिरदाभ्यम् इयम्यानि चर्जिनी रूपा रोहि न्यागृता तिस्रेव प्रत्यादर्शयत्या अन्तर्धरसु बाहुषु प्रजाः तिस्रो हत्यायामि यज्ञा अन्यारमुश्रे बृहदौवने षण् माता रुद्राणाम् दुहितावसूनाम् स्वनामृतनाभिः प्रणुवो जेदनामना रामदेष्टा वचोवितम् वाचामुदीरजम् दीम् अतिष्ठमानाम् देवीम् देवेभ्यः पर्येयुषीम् गा मा वृत्तमत्यो दध्जेताः त्वमग्ने बृहद् कविर्गृहमादृवा स नीलानया सह देवा अग्ने तु वस्युवाः चित् श्रीभानवाः भयम् ज्योतिष्ठेन या सादये प्रणवानला भूवे अग्निंसमुद्रवाहासम् भूवेतस्वरम् कविम् भजन्यक्रन्सहा अग्निम्समुद्रवाहासम् आस विसूर्य भगस्येव भुजिम् भुवे अग्निन्द्रवासनम् अग्निम्बो बृहन्द मध्वराणाम्बुरोतमम् अच्छा नेसहस्वते अयम् यथा नूपे वरक्ष्याः अस्य कृत्वा स्वतः अयम् विश्वाः अभिश्रियोग्निर्देवेषु पद्यते आवाजैर्वानो गमते श्रेशामिहस्तु हिहो द्रेणां यशस्तामम् अग्निं यज्ञेषु पूर्जम् शीलं राजेष्पा शीलायाजीर्घसृतामद्वन् तन्नदा नीन्द्रिः मित्रसृष्टिनम् मित्रं नया गज्यानम् ष्टाभिरुचिभिः ोतिषाक्षी च मान कविम् देवासो अङ्गिराहमवत्यम् रचेत सन्द्वयज्ञे दूतम् वरेण्यम् अव्यवाहम् निषेदे ी कायद्वम् सर्वम् अग्निमिन्धाः र्यस्य मध्वनम् लक्ष्मो गिराः प्रथैवो दास अतिर्देवानवना हनु मातरम् पृथिवीं विवापृथे तस्थौ नाकस्य सा नभि स्वाद्रेन्द्रष्टयश्चकृत्या सहस्रसाम्येधा विपद्मनायम् राजेण प्रतिमत्तो यत्ते सोदासी सबीरम् धत्ते आत्मोक्षंसिनम् सहस्रपोषिणम् अक्षीतिस्रवासदा पुनो वधो विष्टा वामानि धीमहि यो विस्वादग देवसुहोता मन्त्रो जनानाम् मधोर्नमात्रा प्रथमान्यस्मै प्रस्तो वाजन्द्वे उभेतो ये तस्व विश्वमम् निष्ठाय गाय तदृताम्ने विहते शुक्रसोचिरे उपस्तुतासो अग्नये घवाद्यतः समेम् आहूतः यस्य प्रियाणाम् सूर्यासावादितिम् अग्निम् रथा नाम उदितायोलीता वेदी तावस्वायङ्कियोपमर्तादि ृष्टराजस्य प्रवणेनोर्मयो धिया मासरः मा सर्वसुरग्निः पूरप्रशस्तोदास्वध्वरः मोदे सर्वसोऽग्ने भिदेवैः ीरि दूत्याय रातहं यस्वध्वरः आज्ञेयाय वरुद्रेभिः सोमवीतये सोभन्यामुपातिम् मादय स्वले विश्वेश्वराय नमः ओ इन्द्राय बालवे सु रक्षो वातामो भवमं यष्टो वृत्रहन्ता परिराजो मो न देवानाम् दीनिबन्धर अभिवायुतस्रवाः कामछाचरामीरर्थम् दिवे दिवे कि आससाः पुनादिश्रु सोवन्ध्र दुहिता वारेणशस्व धातः ोदारग् दिवागुरम् धृजम् मधु अमी हीमध्याभूत श्रीणन्ति धेन वस्सिषु सोममिन्द्राय बालवे अस्यै मदेशिष्टारित्राणि जिघ्नते सूर्यो मघा च मङ्गले अवश्ये गोवरं या इन्द्राविन्दो वृषा वेदा आवच्च महित्सरो वृषेन्दो द्युम्नवत्तमः आयोनिम् धर्मसि सदा अधिक्षतम् अधुधारा सु अभो वा दुक्रतो महान्तम् बापो हरिणम् दिरिन्धवः यज्ञोभिर्वासयिष्यते समुद्रो अधुनाष्टम्भो धर्मो दिवः सोमः पवित्रे अस्मयो ृढा हर्महात्रो न दर्शतूर्येण रोचते गिरस्तयिम् नवोज सावर्मृज्यन्ते अपश्युव या निर्मदाय शुम्भासे तम् वामदाय गृष्णाय वो लोककृत्रिमीमहे तव प्रशस्तयो मही अस्मभ्यामिन्दरेन्द्रयोर्मध्वरारया अर्जन्या वृष्टिमासवायुत आत्मा यज्ञस्य पूजा एव